श्रीमद्भागवत महापुराण दसम स्कंध काली के कालीके कालीह में आने की कथा तथा भगवान का व्रजवासियों को दावानल से बचाना राजवाच नागाल रमणक कृत किसुपर्णश तेनक न समंजस तेषु उवाच उपहार्यैर्सर्पजनैर्मासि मासि हयो बलिः वानस्पत्यो महाबाहो नागानां प्राङ्निरूपितः स्वं स्वं भागं प्रयच्छन्ति नागापर्वणि पर्वणि गोपीथायात्मनः सर्वे सुपर्णाय महात्मने विशीर्यमदाविष्टका द्रवेयस्तु कालियः कदर्थीकृत्य करुणं स्वयं तम्बुभुजे बलिं तच्छ्रुत्वा कुपितो राजन् भगवान् भगवत्प्रियः कालियं सुमुपाद्रवत् तमापतन्तं तरसापिशायुध प्रत्यभ्ययादोच्छितनैकमस्तक दद्भिः सुपर्णं व्यजसन्ददायुधकरालजीवोस्रवसितोऽग्रलोचनः तं तार्क्ष्यपुत्रसुनिरस्य मन्यमान् चण्डवेगोमधिसूदनासनः पच्छेन सव्येन हिरण्य रोचि सा जघानकद्रूसुतमुग्रविक्रमः सुपर्णपक्षाभिहत काल्योऽतीव विफलः ह्रदं विवेशकालिन्द्यां तद्गम्यं दुरासतं तत्रैकदा जलचरं गरुणो भक्ष्यमिप्सितं निवारितसौभरिणा प्रसय्य चुजितो हरत् मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौहते कृपया सौभरि प्राह तत्रत्यक्षे ममाचरन् अत्र प्रविश्य गरुणो यदि मस्यां सुखादति सद्य प्राणैर्वियुज्येत सत्यमेतद्रवीम्यहम् तं काल्य परं वेद नान्यकश्चेलिह अवासीद्गरुणाद्भीतकृष्णेन च विभाषितः कृष्णं ह्रदामुनस्क्रान्तं दिव्यगन्ध दिव्यगन्धवाससं महामणिगणाकिरणं जाम्बूनदपरिष्कृतम् उपलम्भोत्थिता सर्वे लब्धप्राणाय वासवः प्रमोदनिभृतात्मानो गोपा प्रीत्याभिरेभिरे यशोदारोहिणी नन्दो गोप्यो गोपास्य कौरव कृष्णं समेत्य लब्धेहा आसंलब्धमनोरथाः रामश्चाच्युतुमालिङ्ग्य जहासास्यानुभाववे न गा गावो वृषावशालेभिरे परमाम्बुदम् नन्दं विप्रासमागत्य गुरवः सकलत्रकाः वचुस्ते कालि अग्रस्तो दृष्ट्या मुक्तस्तवात्मजः देहिदानं द्विजातीनां कृष्णनिर्मुक्तिहेतवे नन्दप्रीतमनाराजन् गासुवर्णं तदादिशत् यशोदापि महाभागा नष्टलब्ध प्रजा सती परिस्पद्याङ्कमारोप्य मुमोचाश्रूकलां तां रात्रिं तत्र राजेन्द्रच्छत्रिभ्यां समकर्षिताः हुसुर्वजौकषो गावः कालिन्द्या उपकूलतः तदा सुचिवनोद्भूतो दावाग्नि सर्वतो व्रजम् सप्तं निशीथ आवृत्य प्रदग्धूमुपचक्रमे तपो ततोत्थाय सम्भ्रान्ता दह्यमानामृजौकस कृष्णं युजुस्ते शरणं मायामलयमीश्वरम् कृष्णकृष्णमहाभाग हे रामामितविक्रमम् एष घोर तमो वह्नि तावकान्ग्रस्ते हि नः सुधुस्तरान्न स्वान् पाहि कालाग्ने सुहृद प्रभो न शक्तुमस्त्वच्चरणं संयुक् सन्त्यक्तुम् अकुतो भयम् इत्थं स्वजनवैक्लव्यं निरीक्ष्य जगदीश्वरः तमग्निमपि व्य तीव्रम् अनन्तोऽनन्तशक्तिधेन् श्री श्रीमद्भागुते महापुराणे पारं श्यां चैतायां दशमस्कन्धे पूर्वार्धे दावाग्निमोचनं नाम सप्तदशोऽध्यायः